अथैकचत्वारिंशः सर्गः आज्ञप्तो रावणेनेत्थम् प्रतिकूलम् च राजवत् अब्रवीत्परुषम् वाक्यम् निःशङ्को राक्षसाधिपम् केनायमुपदिष्टस्ते विनाशः पापकर्मणा निशाचरा कस्त्वया सुखिना राजन्नाभिनन्दति कनेेद मृत्युद्वार शत्रवस्तव सुव्यक्तन वीरिया निषाचराक्ष्युपुरद्ध बलीयसा कनेेदिषंते क्षुद्रेणाबुद्धि यस्वाति नश्य स्वकृतेन निशाचरा बध्या खलु न बध्यंते सचिवास्तव रावण ये त्वामुत्पथमारूढम् न निगृह्णन्ति सर्वशः अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः निग्राह्यः सर्वथा सद्भिः स निग्राह्यो गृह्यसे धर्ममर्थम् च कामम् च यशश्च जयताम्बरा स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचरा विपर्यये तु तत्सर्वम् व्यर्थम् भवति रावणा व्यसनम् स्वामि वैगुण्यात् प्राप्नुवन्तीतरे जनाः राजमूलो हि धर्मश्च यशश्च जयताम्बरा तस्मात् सर्वास्वस्थासु रक्षितव्या नराधिपाः राज्यम् पालयितुम् शक्यम् नतीक्ष्णेन निशाचरा न प्रतिकूलेन नाविनीतेन राक्षसा ये तीक्ष्णमन्त्रा भुज्यन्ते सह विषमेषु रथाः शीघ्रम् मन्दसारथयो यथा बहवः साधवो लोके युक्तधर्ममनुष्ठिताः परेषामपराधेन विनष्टाः परिच्छदाः स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावणा रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा अवश्यम् विनशिष्यन्ति सर्वे रावणराक्षसाः येषाम् त्वम् कर्कशो राजा दुर्बुद्धिरचितेन्द्रियः तदिदम् काकतालीयम् घोरमासादितम् मया अत्र त्वम् शोचनीयोऽसि सैन्यो माम् निहत्य तु रामोऽसा वचिरा त्वाम् वधिष्यति अनेन मामवधारय आत्मानम् च हतम् विद्धि हृत्वा सीताम् स बान्धवम् आनयिष्यसि चेत् सीतामाश्रमात्सहितो मया नैव वै नैव लङ्का न राक्षसाः निवार्यमाणस्तु मया हितैषिणा नमृष्यसेवाक्यमिदम् निशाचर इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आलिकाव्ये अरण्यकाण्डे एकचत्वारिंशः सर्गः